हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे अष्टात्रिंशर्गः सीताकर्तृक वल्कल धारणस्य अनौचित्य प्रतिपाद्य राज्ञः कैकेय्या भर्सनम् श्रीरामस्य राजानम् प्रति कौसल्यायाम् कृपा कर्तुम् अनुरोधश्च तस्याम् चेरम् नाथवत्याम् नाथवत् प्रचुक्रोशनः सर्वम् दशरसन्ति तेन तत्र प्रणादेन दुःखित स महीपतिः चिच्छेद जीविते श्रद्धाम् धर्मे यस्य चात्मनः स निश्वस्य उष्णमैक्ष्वाक ताम् भार्याम् इदम् अब्रवी कैकेयी नसीता सीता गन्तुमर्हति सुकुमारी च बाला च सततं च सुखोचित नैयम् नस्य योग्येति सत्यमह गुरुर्मम इयम् हि कस्यापि करोति किञ्चित् तपस्विनी राजवरस्य पुत्री याचिरमासाद्य जनस्य मध्ये स्थिता विसन्याश्रमणीव काचित् चिरान्यपास्याज् जनकस्य गण्या नेयम् प्रतिज्ञा मम दत्तपूर्व यथा सुखम् गच्छतु राजपुत्री वनम् समग्रा स सर्वरत्नै अजीवनार्हेण मया नृशन्त कृता प्रतिज्ञा नियमेन तावत् त्वया बाल्यात् प्रतिपन्नमेतत् सन्मादहे त्वेनवात्मपुष्पम् रामेण यदि ते पापे किञ्चित्कृतम् अशोभनम् अपकार कह्यते वैदेह्यादर्शितोधमे मृगीभोत्फुल्लनेन मृदुशीला मनस्विनी अपकारम् कमयुवते करोति जनकात्मजा ननु पर्याप्तमेवम् ते पापे रामविवासनम् किं मेभि कृपणैर्भूय पाचकै अपि च कृतै प्रतिज्ञातं मया तावत् तयोक्तम् देवि शृण्वत रामम् यत् अभिषेकाय त्वम् ह्य गतमब्रवीः तत्त्वेतत् समतिक्रम्य निरयम् गन्तुमिच्छसि मैथिलीम् एवम् ब्रुवन्त पितरम् रामस्तं सम्प्रस्थितो वनम् अवाक्षिरे समासीनम् इदं वचनम् अब्रवीत् इयम् धार्मिक कौसल्या मम माता यशस्विनी वृद्धा च क्षुद्रशीला च न च त्वाम् देव गर्हते प्रपन्नाम् शोकसागरम् अदृष्ट पूर्व व्यसनान् भूय तम्मन्तुमर्हसि पुत्रशोकम् व्यथ नक्षेत् त्वया पूज्य न पूजित मां हि सञ्चिन्तयन्ति सि जीवे तपस्विनी इमाम् महेन्द्रोपमजाति तथा विधातुम् जननीम् मम यथा वनस्थे मयि न जीवितं न्यर्पय न क्षयम् व्रजेत् इत्यार्थे श्रीमद् रामायणे वाल्मीकी आदिकाव्ये अयोध्याकाण्डे अष्टात्रिंश सर्ग श्रीसीतारामचन्द्रमणमस्तु